श्रीमद्भागवतमहापुराणं दशं स्कन्ध अचतुर्दशोऽध्यायः ब्रह्माजिके द्वारा भगवान् की स्तुति ब्रह्मोवाच नो विद्यते भ्रवपुषे तडिदम्बराय गुञ्जावतं सपरिपेच्छलसन्मुखाय वर्णस्रजे कवलवेत्रविषाणवेणो लक्ष्मश्रिये मदुपदे पशुपाङ्गजाय अस्यापि देववपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि नेशे महेत्ववस्तुं मनसान्तरेण ज्ञाने प्रयासमुदपाशनमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्तां से स्थिता सुतिगतां तनुवाङ्मनोभि ये प्रायशोजितजितोऽप्यसि त्रिलोक्यां श्रेयस्तुतिं भक्तिमुदश्च ते विभो क्लिश्यन्ति ये केवलबोधलब्धये तेषामसौक्ले सलये कशिष्यसे नार्यद्यथा स्थूलन्तु सावघातिनां पुरेह भूमन् बहोऽपि योगिन त्वदर्पिते हा निजकर्म लब्धयां कथोपनीतया प्रपेदि रञ्जोच्युत गतिं पराम् तथापि भूमन्महिमा गुणश्च ते विबोधुर्मर्हतन्त्यमलान्तरात्मभिः अविक्रियात् स्वानुभवादरूपतो जनन्यबोध्यात्मतया च चान्यथा गुणात्मनस्तेऽपि गुणान्मि मातुं हितावतिर्णशीशिरेष कालीनयैर्वा विमिता सुकल्पै भूपां सवकेमिहिकादिभाष तद्धेनुकम्पां सुसमीक्षमालो भुञ्जान एवात्मकृतं विपाकं हृद्वाग्वपुर्भिर्विदधन् नमस्ते जीवेतयो मुक्तिपदे सदाय पश्ये समे नार्यमनन्त आद्ये परात्मनि त्वयि अपि मायि मायिनी मायाम्बि तेक्षितुमात्मवैभवं ह्यहं किया नैच्छमिवार्चिरग्नौ अत समस्वाच्युतमे रजोभुवो जानतस्त्वं पृथगी समालिरः अजावले पान्धतमोऽन्धचक्षुष तेसो नुकंप्यो नाथवानिति क्वाहं तमो मदहं खचराग्निवा भू संवेष्टिताण्डुघटसप्तवितस्तिकाय पेजम्बधावितं विगणिताण्डपरालुचर्या धाताद्वरोम विवरस्य उच्छेपणं गर्भगतस्य पादयो किं कल्पते मातुरथोक्षजागसे किमसि नासेऽ्यपदे सभूषितं तवास्ति कोक्षे कियदभ्यनन्त जगत्त्रयान्तो दधि विनिर्गतो जस्त्वितिवाङ्न मयि मिषा किं त्वरत्वन्य विनिर्गतोऽस्मि नरभूजलायनां तच्चापि सत्यं न तज्जेज्जलस्थं तव सग्जगद्वपु किं मे दृष्टं भगवमस्तदैव किं वासुदृष्टं श्रिमे तदैव किं नो सपद्यैव पुनर्व्यदर्शी अत्रैव मायाधमनावतारेशस्य प्रपञ्चस्य बहिः प्रश्नत्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते या स कुक्षाविदं सर्वं सात्मं भाति यथा तथा तत्त्वय्यपीहतः सर्वं किमिदं मायया विना अद्यैव तदृतेश किं एकोऽसि प्रथमं ततो वद्वजस्रहृद वस्या समस्तायपि तावन्तोऽसि चतुर्भुजास्तखिलैः साकं मयोपासिताः तावन्त्येव जगन्त्यभूस्तदमिदं ब्रह्माद्वयं शिष्यते अजानतं त्वत्पदवीमनात्मन् आयात्मनात्मां भासि वितर्त्य विवाहं जगतो विधान इय त्वमेषोऽन्तैव तिनेत्र सुरे स्वीस्पि स तथैव निष्वपि तिर्यक्षि यादस्वपि ते जनस्य जन्मासतां दुर्मदनिग्रहाय प्रभो विधात सदनुग्रहाय च को वेत्ति भूमन् भगवन्परात्मन् योगेश्वरोतिर्भवत त्रिलोक्यां क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायां तस्मादिदं जगदसे समसस्वरूपम् स्वप्नाभमस्तधिषणं पुरुदुःखदुःखं दुक्ष त्वय्येव नित्यसुखबोधतनावन्दन्ते मायात उद्यपि यन् स दिवावभाति एकस्वमात्मा पुरुषपुराण सत्य स्वयं ज्योतिरनन्त आद्य नित्योक्षरोजस्य सुखो निरञ्जन पूर्णो द्वयो मुग्धोपाधितो मृतः